हरि ओम् श्रीसीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकोनविंश सर्ग नभसो अवतीर्णेन विभीषणेन श्रीरामचरणयो शरणीकरणम् श्रीरामपृष्टेन तेन रावणशक्ति परिचयदानम् रावणवधम् प्रतिज्ञाय विभीषणम् लङ्काराज्ये च अभिषिच्य तत्सम्मत्यैव तस्य समुद्रतटे उपवेश उपवेशनम् राघवेण भये दत्ते सन्नतो रावणानुजहे विभीषणो महाप्राज्ञो भूमिं समवलोकयेत् खात्पपां धृष्टौ भक्तसः स तु रामस्य धर्मात्मा निपपातः विभीषणः पादर्यो निपपाताथे चतुर्भिः स राक्षसै अब्रवीच्य सदा वाक्यम् रामम् प्रति विभीषणः धर्मयुक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् अनुजो रावणस्याहम् तेन चास्म्यवमानितः भवन्तम् सर्वभूतानाम् शरण्यम् शरणम् गतः परित्यक्ता मया मित्राणि च धनानि भवद्गतं हि मे राज्यं जीवितं च सुखानि तस्य तद्वचनं श्रुत्वा रामो वचनम् अब्रवीत् वचसा शान्ति त्रैनं लोचनाभ्यां च मम तत्त्वेन राक्षसानां बलाबलम् एवं मुक्तं सदा रक्षो रामेण कृष्णकर्मण रावणस्य बलम् सर्वम् आख्यातुमुपचक्रमे अवध्य सर्वभूतानां गन्धर्वोरगपक्षिणाम् राजपुत्रो दशग्रीवो वरदानात् स्वयम्भुवे रावणानन्तरो भ्राता मम ज्येष्ठश्च वीरिवान् कुम्भकर्णो महसेजा शक्र प्रतिबलो युधि रामसेनापति तस्य प्रस्तो समरे मणिभद्रः पराजितः भद्रगोधा अवध्य कवचो युधि धनुरादाय तिष्ठन् अदृश्यो भवतीन्द्रजे संग्रामे सुमद् तर्पयित्वा हुताशनम् अन्तर्धान श्रीमान् इन्द्रजी धन्ति राघवे महोदर महापाशु राक्षस चाप्य कम्पनः अनेके पासु तस्यैते दुर्गपालः समायुधि दश कोटिसहस्राणि मास शोणित भक्ष्याणाम् लङ्कापुरनिवासिनां सू सहितो राजा लोकपाल न योधयत् सदैव भग्न रावणेन दुरात्मना विभेचनस्य तु त्वच तच्छ्रुत्वा रघुसत्तम अन्वीक्ष मनसा सर्वम् इदं वचनमब्रवीत् यानि कर्मा प्रदानानि रावणस्य विभीषण आख्यातानि च तत्त्वेन यवगच्छामि तान्यहम् अहं हत्वा दशग्रीवम् सप्रहस्तम् स आत्मजम् राजानं त्वां करिष्यामि सत्यं वेतः शृणोतु मे वा प्रविशेत् पातालम् वापि रावणः पितामहः सकाशं वा नमे जीवन जीवन् विमोक्षते अहत्वा रावणम् सङ्ख्ये सपुत्र जनबान्धवम् अयोध्याम् न प्रवेक्ष्यामि त्रिवितैर्भ्रातृभिपे श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः शिरसावञ्ज धर्मात्मा वक्तुम् प्रचक्रमे राक्षसानाम् वधे साह्यम् लङ्काया च प्रधर्षणे करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् इति ब्रुवाणम् राम तु परिष्वज्य विभीषणम् अब्रवी लक्ष्मणम् प्रीतय समुद्रा जलमानय तेन चैवम् आप्राण्यम् अभिचिञ्च विभीषणम् राजानम् रजसां क्षिप्रम् प्रसन्धे मयि मानदे एवम् गुप्तः स्वसौमित्री अभ्यसेञ्च द्विभीषणम् मध्ये वानरमुख्यानाम् राजानम् राजशासनात् तम् प्रसादम् तु रामस्य दृष्ट्वा सद्य प्लवङ्गमः प्रचुक्षूषुर्महात्मानम् साधु अप्रविच्च हनुमा चेत् सुग्रीवश्च विवेचनम् कथं सागरमक्षोभ्यम् तराम वरुणालयम् सैन्ये परिवृता सर्वे वानराणाम् भोजसाम् उपायै अभिगच्छाम यथा नदनदीपतिम् तराम तरसा सर्वे स्वसैन्या वरुणालयम् एवम् मुक्तः धर्मात्मा प्रत्युवाच विभीषणः समुद्रम् राघवो राजा शरणम् गन्तुमर्हति खानितये सगरेणायम् अप्रमेयो महोदधिः कर्तुम् अरति रामस्य न्याते कार्यं महोदधिः एवं विभीषणेनोक्तो राक्षसेन विपरिचितः आ जगामाथ यत्र रामः स लक्ष्मणे ततश्चाख्या कुमारेभिः भी, विभीषणैव च शुभम् सुग्रीवो विपुलग्रीवे सागरस्योपवेशनम् प्रकृत्या धर्मशीलस्य रामस्याप्यरोचते स लक्ष्मणम् महातेजा सुग्रीवम् च हरीश्वरम् सत्क्रियार्थम् क्रियालक्ष्यम् स्मितपूर्वम् अभषत् विभीषणस्य मन्त्रोऽयम् मम लक्ष्मण रोचते सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः उभाभ्याम् सम्प्रधार्यातम् रोचते यत्तम् एवम् उक्तौ ततो वीरौ उभौ सुग्रीव लक्ष्मणौ समुदाये चार इदं वयस न मोचतु किमर्थं नो नदव्याघ्रे न रोचिष्यति राघवे विभीषणेन यत्तूक्तम् अस्मिन् काले सुखावन बध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये लङ्कां नासाधितुं शक्या चन्द्रे अपि सुरासुरै विभीषणस्य शूरस्य यथार्थ क्रियतां वच अलङ्कालात् चयम् कृत्वा सागरोऽयं नियुज्यताम् यथा सैन्येन गच्छाम पुरीं द्रावणपालिताम् एवम् कुशातीर्णे तीरे नदनदीपते सम्प्रश तदा रामो वैद्यामि वै हुताशनः इत्याख्ये श्रीमद् एकोनविंशतिः सर्गः श्रीसीता रामचन्द्र